महे तमीशानं जगतस्तुषस्पतिन्धियंजिन्नवमवसे हूमहे वयं पूषानो यथा वेदसामसद्वृधे रक्षिता पायुरदभ्रस्व॒स्तये तमीशानं पतिन्धियंजिन्नवमवसे हूमहे वयं पूषानो यथा वेदसामसद्वृधे रक्षिता पायुरदभ्रस्व॒स्तये तमीशानं जगतस्तुषस् पतिन्धि॒यञ्जिन्नवम॑वसे हूमहे वयम् पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदभ्रस्व॒स्तये